दशमोऽध्यायः श्रीभगवानुवाच भूय एव वा महावाहो शृणुते परमं वचद यत्तेगम् प्रियमाणाय वक्ष्यामि kita sama ya ya up, up, up. सर्वस्य प्रभवो मत्तः सर्वम् प्रवर्तते इति मत्वा भजन्ते माम् बुधाः परस्परम् कथयन्तश्च माम् नित्यम् तुष्यन्ति च रमम् ye yeah, na उवाच परम् ब्रह्म परम् धाम पवित्रम् परमम् भवान् पुरुषम् शाश्वतम् दिव्यम् आदिदेवमजम् विभुम् आहुः त्वां सर्वे देव सितो देवलो व्यासः स्वयं चैव ब्रवीषि मे Satsang with Mooji भगवाच हंत कथयिष दिव्याख्यामूत राधान्यतुश्रेष्ठ नास्ो विस्तर मे मरुता अस्मि नक्षत्राणाम् mam idhiparth bruhaspatim senani namakam skandha sar वज्रम थे sam पवता अस्ति रामः शस्त्रव्रता I don't know. that ययोऽस्मि व्यवसायोऽस्मि सत्त्वम् सत्ववता Thank you. अर्जुना न तदस्ति विना यद्यद्विभूतिमत्सत्वम् श्रीमदूर्जितमेव तत्तदेवावगच्छत्वम् मम तेजोऽशसम्भवम् अथवा बहुनैतेन किम् ज्ञातेन तवार्जुन विष्णव्यागमिदम् कृष्णं एकांशेन स्थितो जगत् तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे विभूतियोगो नाम दशमोऽध्यायः